हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे एकदशमः सर्गः कैकेय्य सद्मनि समागतस्य दशरथस्य तां कोपभुवनगताम् अवलोक्य दुःखम् तेन तस्मै सान्त्वना प्रदानं च विदर्शिता यदा देवी कुब्जय पापय वृषम् विदर्शिता यदा देवी कुब्जय पापय भृशम् तदा शेते स्म सा दिग्धविद्धेव किन्नरे निश्चित्य मनसा कृत्यम् सा सम्यगिति भामिनी मन्थरायै च विचक्षणा स्वादीनाम् निश्चयम् कृत्वा मन्थरा वाक्यमोहित नागकन्येव निश्वस्य दीर्घम् मुष्टं च भामिने मुहूर्तम् चिन्तयामास मार्गमात्मसुखावहम् सासुरु चासकामात् तं निशम्य विनिश्चयम् बभूव परमप्रीता सिद्धिम् प्राप्येव मन्थर अथ सा देवी सम्यक् कृत्वा संविवेश बलभूमौ निवेश्य निवेशय मुखे ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे तया पविद्धानि माल्यान्याभरणानि च अशोभयन्त वसुधां नक्षत्राणि यथा नभ क्रोधागारे च पतिता सा बभो मनिलाम्बरा एकवेणीम् दृढाम्बद्ध गतदत्रैव किन्नरी आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् उपस्थानम् अनुज्ञाप्य प्रविवेश निवेशनम् अद्य रामाभिषेको वै प्रसिद्ध इति ज्ञावान् हो प्रियमाख्यातुं विवेशान्तः पुरं वशी स प्रविवेश महायशः पाण्डुराभ्रहमिवाशम् राहुयुक्तम् निशाकरः शुकबर्हि समायुक्तम् क्रौच हंस ऋतायुतम् वादित्र रव संहुष्टम् लतागृहे चित्रगृहे चम्प्रकाशोकशोभितये दान्तराजत सौवर्ण वेदिकाभिः समायुतम् नित्या पुष्पफलैर्वृक्षै वापीभिः उपशोभितम् दान्तराजत सौवर्णै संवृतं परमासने विविधैरन्नपानै च भक्ष्यै च विविधैरपि उपपन्नं हार्हच भूषणे श्रीदिवोपमम् प्रविश्य महाराज सम्बन्ध परं रुद्धिम न ददर्श श्री राजा कैकेयीं च नोत्तमे सकामा बरसंयुक्तो प्रत्यर्थी मनुजाधिपः पप्रच्छ विशदादश न हि तस्य पुरदेवी ताम् वेलाम् अत्यवर्तते न च राजा गृहम् शून्यम् प्रविवेश कदाचन ततो गृह गतो राजा कैकेयीम् पर्यपृच्छत यथा पुरम् अविज्ञाय स्वार्थलिप्तुम् अपण्डितान् प्रत्याहारी तथोवाच संसृता तु कृताञ्जलिः देव देवी भृशं क्रुद्ध क्रोधाकारम् अभिद्रुतः प्रतिहार्य वचुत्वा राजा परमदुर्मनः विशसाद पुनर्भूयो लुलित व्याकुलेन्द्रियः तत्र तां पतितां भूमौ शयानाम् तथोचिताम् प्रतप्त इव दुःखेन सोपश्च जगति पतिः सवृद्ध तरुणीम् भार्याम् प्राणेभ्योऽपि गरीयसीम् अपापः पापसङ्कल्पाम् ददर्श धरणी तले लतामिव विनिष्कृताम् पतिताम् देवतामिव किन्नरीमिव निर्धूताम् च्युतामप्सरसंयत मायामिव परिभ्रष्टाम् हरिणीमिव संयताम् करेणुम् विध्याुन वने परीभ्या सचेतन कामी कमलपद्राक्षी उवाच वनिताद नीजा क्रोधमात्मन संश्रित केयुक्ता केन वाहसि विमानिता यदिदं मम दुःखाय शेषे कल्याणी पांशुषु भूमौ शेषे किमर्थं कल्याण मयि कल्याणचेतसि भूतोपहतचितेव मम चित्त प्रमाथिनी सन्ति मे कुशला वैद्य सभितुष्टाश्च सर्वशः सुखी ताम ताम करिष्यन्ति व्याधिमा चक्षभामि कस्य वापि प्रियम् कार्यम् केन वा विप्रियम् कृतम् कप्रियम् लभताम् अद्य को, को वा सुमहदप्रियम् मारुक्तिर्मान् च देवी तम् परिशोषणम् अवध्यो वध्यताम् को वा वध्ये दरिद्रे को द्रव्यभान्वाप्य किञ्चन अहं च हि मदीया च सर्वे तव वशानुग न ते कञ्चिदभिप्रायम् व्याहन्तुमुपमुत्सहे आत्मनो जीवितेनापि ब्रूहे यन्मनसि स्थितम् बलम् आत्मनि जानन्ति न मां शङ्कितुमर्हसि करिष्यामि तव प्रीतिम् सुकृते नापि ते शपे यावदावर्तते चक्रम् तावतीमेव सुन्धर द्राविड सिन्धुसौवीर सौराष्ट्रा दक्षिणापथ गङ्गाङ्गस्य समृद्धः काशिकोसरः तत्र जातम् बहु द्रव्यम् धनधान्यम् मजाविकम् ततो वृणीष्व कैकेयी यद्यत्त्वम् मनसेच्छसि किम् मायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने तत्त्वम् मे ब्रूहिकैके यतस्ते भयमागतम् तत् ते व्यपनेष्यामि निहारम् विवरश्मिवान् समाश्वस्ता वक्तुकामा तदप्रियम् परिपीडयितुम् भव भट्टारम् उपचक्रमे इत्याशि श्रीमद् रामणे वाल्मीकि अधिकार्ये अयोध्याकाण्डे रचमसर्ग श्री सीतारामचन्द्र अर्पणमस्तु